रूपवान्वीर्यसम्पन्नः श्रीमानतुलविक्रमः नित्यम् दीक्षाङ्किततनुः शतक्रतुरिवापरः तेजसा सूर्यसङ्काशः क्षमया पृथिवी समः यमान्तकसमः क्रोधे श्रिया वैश्रवणोपमः तस्याभिजनसंयुक्तैर्गुणैर्भरतसत्तमा व्याप्तेयम् पृथिवी सर्वा गभस्तिभिः सकासिराजस्य सुते यमजे भरतर्षभ उपयेमे महावीर्यो रूपद्रविणसंयुते तयोश्चकारसमयम् यथः स पुरुषर्षभः नातिवर्तिष्य इत्येवम् पत्नीभ्याम् सन्निधौ तदा सताभ्याम् शुशुभे राजा पत्नीभ्याम् वसुधाधिपः प्रियाभ्यामनुरूपाभ्याम् करेणुभ्यामिव द्विपः तयोर्मध्यगतश्चापि रराजवसुधाधिपः गङ्गायमुनयोर्मध्ये मूर्तिमानिवसागरः विषयेषु निमग्नस्य तस्य यौवनमभ्यगात् न च वंसकरः पुत्रस्तस्याजायत कश्चन मङ्गलैर्बहुभिर्होमैः पुत्रं नाससादनृपः श्रेष्ठः पुत्रम् गौतमस्य महात्मनः शुश्रावतपसिश्रान्तमुदारम् चण्डकौशिकम् यदृच्छयागतम् तम् तु वृक्षमूलमुपाश्रितम् पत्नीभ्याम् सहितो राजा सर्वरत्नेरतोषयत्